श्रीहरये नमः अथ चतुर्दशोऽध्यायः मैत्रेय उवाच मृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः गोप्तर्य सति वै सुनीतां ब्रह्मवादिनः प्रकृत्य सम्मतं वेन अभ्यषिञ्चन् पथिम्भुवः श्रुत्वानुपासनगतं वेन मध्युग्रशासनं निलिल्युर्ध्वस्य वक्सत्य सर्पत्रस्थायि वा कवः स आरूढ नृपस्तान उन्नद्धोष्टविभूतिभेन् अवनेन महाभागान् स्तब्धसम्भावित स्वतः एवं मधान्त उत्सिक्तो निरङ्कुश इव द्विपः न होतव्यम् द्विजाक्वचेत् इति भेरी गोषेण सर्वसहा वेनस्य आवेश्यमुनयो दुर्वृत्तस्य विचेष्टितम् ्रह्मृस्य लोकव्यसनं कृप योषु स्म सत्रिणाः अहोवुभयथः प्राप्तं लोकस्य व्यसनं महत् धारुण्युभयदो दीप्ते इव तस्करपालयोः अराजगभयादेश कृतो राजदर्हणः ततोऽप्यासीद्भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् अखेरिव पयः पोष पोषकस्याप्यनर्धभृत् देन सुनीता गर्भसम्भवहा निरूपितप्रजापालन् सजिहां सति प्रजाः तथापि सान्त्वये मामं नास्मां तत्पादकं स्पृशे तद्विद्वद्भिः असद्वृद्धो वेनास्माभिः सांत्वितो नृपः यदिनो वाचं न लोकधिक्कारसन्धग्धं दहिष्यामस्वतेजसा एवमध्यवसायैनं मुनयो घूटमन्यवः उभव्रज्ब्रुवन्देनं सान्त्वयित्वा च सामभिः मुनयवूचो नृपवर्य निबोधयित यत्ते विज्ञापयाम भोः आयुर्षीबलकीर्तीनां तव तात विवर्धनं धर्म आचरितः पुंसां वाङ्मनकाय बुद्धिभिः लोकान् विशोकान् वितरत् यथा नद्यम् अशङ्गिना स ते प्रजानां क्षेमलक्षणः यस्मिन् विनष्टे नृपते ऐश्वर्यादवरोहति राजन्नश् मात्येभ्य शोराधिभ्यः प्रजा नृपः रक्षन् बलिं गृह्णन् इह प्रेत्यच्च यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः इज्जते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः तस्य राज्ञा महाभाग भगवान् भूतभावनः परुत्तुष्यति विश्वात्मा तिष्ठथो निजसासने तस्मिन् स्तुष्टे किम् अप्राप्यम् जगदामीश्वरेश्वरे लोकासबालाह्ये तस्मै हरन्ति बलिमादृताः तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयिमयं द्रव्यमयं तपोमयं यज्ञैर्विचित्रैर्यजतो भवायते राजन् स्वदेशान् अनुरोद्धुम् अर्हसि यज्ञेन युष्मद्विषये द्विजादिभिः वितायमानेन सुराकलाहरेः स्विष्ठा सुतुष्टा प्रदिशन्ति वाञ्छितं तथेलनं नार्हसिवीरचेष्टितुं वेन उवाच बालिसा भत अधर्मे धर्ममानिनः ये वृत्तिदं पतिं ह्यत्वा जारं पतिमुपासते अवजानन्त्यमीमूढां नृपरूपिणमीश्वरं नानुविन्दन्ति ते भद्रम् इह लोके परत्र च को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी भर्तृस्नेहविदूराणां यथा जारे कुयोक्षितां विष्णोर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः पर्जन्यो धनधः सोमं क्षितिरग्नेरपां पतिः विभुतां प्रभवो वरसापयोः देहे भवन्ति नृपते सर्वदेवमयो नृपः तस्मान् मां कर्मभिर्विप्रा यजध्वं गतमस्सराः बलिं च मद्यं हरत मद्धोन्यकोऽग्रभुपुमान् मैत्रेय उवाच इत्थं विपर्ययमथि पापीयान् उत्पथं अनुनीयमानधत्याच्चज्ञां न चक्रे भ्रष्टमङ्गळः इति ते सत्कृतास्तेन द्विजा भण्टितमानिना भग्नायां भव्ययाज्ज्ञायां तस्मै विदुरशुक्रुदुः हन्यतां हन्यतामीश पापः प्रकृति दारुणः जीवग्जगता साभासु कुरुते भस्मशाद्रोमम् नायमर्हत्य नरदेववरासनं योधि यज्ञपतिं विष्णुं विनिन्दत्य न पत्रपः ेनमेघं हृधे शुभं प्राप्त ईदृशमैश्वर्यं क्यधनुग्रहभाजनः इत्थं व्यवसिताहन्तुं ऋषयोरूढमन्यवः निजग्र्हुङ्कृतैर्वेणं हतम् अच्युदनिन्दय ऋषिभिस्वाश्रमभथम् गते पुत्रकले वरं सुनीता पालयामास विद्यायोगेन शोचति ये, ये गदामुनयस्ति त्वं सरस्वत्सलिलाप्लुताः भूत्वाग्निं सद्गताश्चक्ररुपविष्टा सरित्तटे वीक्षोतितान् महोत्पातान् आहुर्लोकभयङ्करान् अप्यभद्रम् अनाताय दस्युभ्यो न भवेद्भुवः दावतां सर्वतो दिशं पां भूरे शोराणाम् अभिलुम्पतां तदु भद्रवम् आज्ञाय लोकस्य वसु भर्तर्युपरते तस्मिन् अन्योन्यं च जिगांसता शोरप्रायं जनभतं हीनसत्त्वमराजगं लोकान् आवारय शक्ता अभिधद्धोषदर्शिणः ब्राह्मणः समदृक्षन्तु दीनानां समुपेक्षकः श्रवते ब्रह्मकतस्यापि भिन्नभाण्डात् पयोयतां नाङ्गस्य वंशो राजर्षेर् एष संस्थादुमर्हति अमो अस्मिन् केशवाश्रयाः विनिश्चित्यैवं विपन्नस्य महीपतेः मम तु पूरुं तरसा तत्रासीद्बाहुको नरः काककृष्णोति ह्रस्वाङ्गो ह्रस्वभाकुर्मः ह्रस्वपान्निम्ननासग्रो रक्ताक्षस्ताम्रमोर्दजः तं तु ते वतं दीनम् किं करोमीति वादिनं ईशिदेत्यभ्रुवं स्तात स निषादस्ततो भवत् तस्य वंस्यातु नैषाधा येन अहरज्जायमानो वेन कल्मषमुल्बणम् इति महापुराणे चतुर्थस्कन्ते पृथुशरिते निषाधोद्भत्तेर्नाम चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराज की जय